अधिरूपं महेशस्य देवदानवमानवाः दृष्ट्वा तं मुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना विरोचनकुलं सर्वं पाताले विनिपातितम् विधानि कर्माणि कृत्वा गरुडवाहनः न विस्मयमुपागच्छत् पारमेष्ठ्येन तेजसा स सर्वममरैश्वर्यं सम्प्रदायशचीपतेः त्रैलोक्यञ्च ददौ चक्रे विष्णुर्दानवसूदनः येशते वामनो नाम प्रादुर्भावो महात्मनः वेदविद्भिर्द्विजैरेतत् कथ्यते वैष्णवं यशः मानुषेषु यथा विष्णोः प्रादुर्भावं तथा शृणु विष्णोः पुनर्महाराजप्रादुर्भावो महात्मनः दत्तात्रेय इति ख्यातऋषिरासीन्महायशाः तेन नष्टेषु वेदेषु क्रियासु चमखेषु च चातुर्वर्ण्ये च चा सङ्कीर्णे धर्मे शिथिलताङ्गते अभिवर्धति चाधर्मे सत्ये नष्टे स्थितेनृते प्रजासु क्षीयमाणासु धर्मे चाकुलताङ्गते स सक्रिया वेदाः प्रत्यानीताश्च तेन वै कृतं तेनमहात्मना महात्मना स एव वै तं हैहयानामधिपस्त्वर्जुनोऽभिप्रसादयत् वने पर्यचरत् सम्यक् शुश्रूषुरनसूयकः निर्ममो निरहङ्कारो दीर्घकालमतोषयत् आराध्य दत्तात्रेयं हि अगृह्णात् सवरानि आप्तादाप्ततराद्विप्रात् विद्वान् विद्वन्निषेवितात् ऋतेमरत्वं विप्रेण दत्तात्रेयेण धीमत वरैश्चतुर्भिः प्रवृत इमांस्तत्राभ्यनन्दत मनस्वी बलवान् सत्यवागनसूयकः सहस्रबाहुर्भूयासमेष मे प्रथमो वरः जरायुजाण्डजं सर्वं सर्वं चैव चराचरम् प्रशास्तुमिच्छे धर्मेण द्वितीयस्त्वेष मे वरः पितृन् देवानृषीन् विप्रान् यजेयं विपुलैर्मखैः अमृत्र निशितैर्बाणात रजिदत्ताेह भगवती वर ये यस नवचास्दृशवादिवा लोक विवालोके हंता भवेदि